अथ सप्तमोऽध्यायः सौनक उवाच निर्गते नारते सूत भगवान् पादरायणः कृतवांस्तदभिप्रेतं तत सुतौ उवाच ब्रह्मनद्यां सरस्वत्याम् आश्रमपश्चिमस्तटे संव्याप्रासयति प्रोक्ता ऋषीणां सत्रवर्दनः तस्मिन् स्व आश्रमे व्यासो भतरीकण्ठमण्डिते आसीनोप उपस्पृश्य प्रणीधत्यो मनस्वयं भक्तियोगेन मनसि सम्यक् semale पुरुषं पूर्वं मायां च तदभाश्रया यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकं परोऽपि मनुतेनर्थं तत कृतं चाभिपद्यते अनर्थोपशमं साक्षात् भक्तियोगम् अधोक्षजे लोकस्याजानतो विद्वांसचक्रे सात्वतः संहितां यस्यां वै कृष्णे परमपूरुषे भक्ति उत्पद्यते पुंस शोकमोघो भयापक ससंहितां भगवतीं कृत्वानुक्रम्यशात्मझं सुखम् अध्यापयामासन् निवृत्तिनिरतं मुनिः सौनकौ उवाच ससैनिवृत्तिनिरतान् सर्वत्रोपेक्षो मुनिः कस्य वा बृहतीमेताम् आत्मा रामः समभ्यसत् आत्मारामाश्च मुनयो निर्गन्ता अप्युरुक्रमे कुर्वन्त्यैहैतुकीं भक्तिं इत्थं भोधगुणो हरिः हरेर्गुणाक्षिप्तमतेर् भगवान् पादरायणी हे अद्य कान्महदाज्ञानं नित्यं विष्णुजनप्रियः परीक्षितो दराजेशे जन्मकर्मविलापनं संस्थां च पाण्डुपुत्राणां वक्षे कृष्णकदोदयं यथा मृदे कौरवसृजञ्जयानां वीरेश्वतो वीरगतिं गते मृगोदराविद्धकधा विमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे पर्दुः प्रियं त्रौ निरिति स्म पश्यन् कृष्णासुधानां स्वभतां सिरांसि उभहरत् जुगुप्सितं कर्म विगर्हयन्ति माता शिशूनां निधनं सुधानां निसंयघोरं परिदभ्यमाना तथा रुदत् बाष्पकलाकुलाशे तां सान्वयन्नाह किरीटमाली तदा सुचस्तेर्भ्रम्भृजामि भद्रे यद्ब्रह्मबद्धोषिर आदधायिनः गाण्डीवमुक्तैर्विशिकैवपाहरे त्वा क्रम्य यत् नास्यसि दग्धपुत्र इति प्रिया वल्कुविचित्र जल्पैर् सशान्त्वयित्वा च्युतमित्रसूतः अन्वाद्रबद्धं कभित्वजो गुरुपुत्रं रतेन तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमनारतेन पराद्रवत्प्राणपरिप्सु बुर्व्यां यावद्गमं रुद्रभयात्यतार्कः यदा शरणमात्मानम् ऐषतश्रान्तवाजिनम् शिरोमेने आत्मत्राणं द्विजात्मजः अतोपस्पृश्य सलिलम् सन्ददे तत्समाहितः अजानन्मुपसंहारम् प्राणक्रश्चरवुपस्थिते ततः प्रादुष्कृतं तेज प्रचण्डं सर्वदोषिसं प्राणापदम् अभिप्रेक्ष्य वैष्णं ज्येष्णुं प्रवाचः अर्जुनो वाच कृष्णकृष्णमहाभागो भक्ता नामभयङ्कर त्वमेको दह्यमानानाम् अपवर्गोऽसि संसृतेः त्वमाद्यपुरुषः साक्षादीश्वरप्रकृतेपरः मायां युधस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि स जीवलोकस्य यामोहितचेतसः विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणं तथायं सावधारस्ते भुवो भारजिहीर्षया स्वानां चानन्यभावानाम् अनुध्यानाय सा सकृत् किमिदं स्वित्कुतो वेति सर्वतो सर्वतोमुखमायाति तेजः परद्मदारुणम् श्री भगवानुवाच ध्राण ध्राणपुत्रस्य ब्राह्मस्त्रं प्रदर्शितं नैवासौवेतसंहारं प्राणभात उपस्थिते न हस्यान्यतमं किञ्चित् अस्त्रं प्रत्यवहर्षणं यज्ञस्त्रेज उन्नद्धम् अस्त्रज्ञो श्रुत्वा भगवता प्रोक्तम् पाल्गुणपरवीरः पृष्ट्वा पस्थम् परिग्रम्य ब्राह्मं ब्राह्माय सन्धते संहत्यान्योन्यम् उभयोस्तेजसी सरसंवृते आवृत्य रोदसी च ववृधो देर्घवग्निवत् दृष्टस्वास्त्रतेजस्तु तयोस्त्रीन् लोकान् प्रदहन् महद दह्यमाना प्रजाः सर्वा संवर्तकमंसत प्रजोबप्लम्मालक्ष लोकव्यतिकरं च तं मतं च वासुदेवस्य तं तत आसाद्य तरसा दारुणं गौतमी सुतं बबन्धामर्षतां राक्षं रसनायतां शिबिरायनि नीषन्तं दाम्ना भत्वारिपुं बलात् प्राहार्जुनं प्रगुपितो भगवानम्बुजेक्षणः मैनं पार्थार्ह सीत्रातुं ब्रह्म भन्तुमिमं जहे अवन्ति निशिबालक न् मत्तं प्रमत्तमुन्मत्तं शुप्तं बालं स्त्रियं जडं प्रपन्नं विरतं भीतं नरिपुं हन्ति धर्मवितन् स्वः प्राणान्यः परप्राणैः प्रभुष्णाति अकृणकलहान् तद्वदस्तस्य ही श्रेयो यद्दोषात्यात्यथ पुमान् प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वथो ममाम् आकष्ये शिस्त यस्ते मिपुत्र तदौ सौवद्यतां पाप आतधायात्मबन्धुहा पर्दुश्च विप्रियं वीरकृतवान् कुलभांसनहान् एवं परीक्षता धर्मं पार्थक् कृष्णेन चोदितः नैचत् हन्तुं गुरुः सुतं यत्यप्यात्महनं महान् अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः न वेद ै शोचन्त्य आत्मजान्हतान् तथा हृतं अवाङ्मुखं कर्म जुगुप्सितेन निरीक्ष्य कृष्णापकृतं गुरोसुतं वामस्वभावकृपया न ना नाम च उचावसा स हन्तस्य बन्धनानयनं ब्राह्मणो नितरां गुरुः सरहस्यो धनुर्वेतः सविः सर्गोपसंयमः अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहादे स एष रोणः प्रजारूपेण वर्तते तस्यात्मनोर्धं बास्ते नान् भगात्मीरसुकृपि तद्धर्मज्ञमहाभागभवद्भिर्गौरवं कुलम् वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अपि क्षणसः मा रोदीदस्य जननी गौतमीपतिदेवता यथाहमृतवत्सार्थान् रोदिं यश्रुमुखीमुहुः यै गोपितं ब्रह्मकुलं राजन् यै अजितात्मभिः तत्कुलं प्रदहत्य सुतानुबन्धं स सोदोवाच धर्म्यं न्यायं सकरुणं निर्व्यलीकं समत्महदम् राजधर्मसुतो राज्ञा प्रत्यनन्दत्वचोद्विजाः न कुलः सखदेवस्य युयुयुधानो धनञ्जयः भगवान् देवकी पुत्रो ये चान् येयाश्च योषितः तत्राहामर्षितो भीमस्तस्य श्रेयान् वध स्मृतः न भर्दुर्नात्मनश्चार्थे चतुर्भुजः आलोक्यवतनं सख्यु इदमागगसन्निवा श्रीकृष्ण उवाच ब्रह्मबन्धुर्न हन्तव्य आतथायीवधार्हणः मयैवो सत्यं यत्तत् सान्त्वयथा प्रियां सूत उवाच अर्जुनसखसाज्ञाय हरेर्हार्धमतासिना मणिं जहारमूर्धन्यं द्विजस्य समुहूर्धजं विमुच्चरसनाभदं बालहत्याहतप्रभम् तेजसा मणिनाहीनं चिभिरान्ति निरयापयत् पपनं द्रविणाधानं धानान् निर्यापणं तदा एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिहहान् पुत्रशोकातुराः सर्वे पाण्डवासखकृष्णया स्वानां यत्कृत्यं शक्रोर्निर्हरणाधिकम् इति श्रीमद्भागवते महापुराणे प्रथमस्कन्ते द्रौणीनिग्रहो नाम सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिकी जय